नारदपुराणम् पूर्वार्थम् अध्यायम् 44 फोर् भरद्वाच उवाच अस्माल्लोकात् परो लोक श्रूयते नोपलभ्यते तमहं ज्ञातुमिच्छामि तद्भवान् वक्तुमर्हति भृगुरुवाच उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते पुण्यः क्षेम्यश्च काम्यश्च स परो लोक उच्यते तत्र ह्यपापकर्माणशुचयोत्यन्तनिर्मलाः लोभमोहपरित्यक्ता मानवा निरुपद्रवाः स स्वर्गसदृशो देशस्तत्र ह्युक्त्वा तत् ह्युक्ताशुभा गुणाः काले मृत्युप्रभवदिस्पृशं दिव्याधयो न च न लोभपरदारेषु स्वदारनिरधो जनः नान्यो हि वध्यते तत्र द्रव्येषु च न विस्मयः परो ह्यधर्मो नैवास्ति नापि जायते कृतस्य दुफलं तत्र प्रत्यक्षमुपलभ्यते या नास्सनासनोपेदा प्रसादभवनाश्रयाः सर्वकामैर्वृदा केजिद्धेमाभरणभूषिताः प्राणधारणमात्रं दुः केषां चिदुपपद्यते श्रमेण प्राणधारणं इह धर्मपरा केचित् केचिन्नैष्कृतिका नराः सुखिता दुःखिता केचिन्निर्धना धनिनो परे इह श्रमो भयं मोहः क्षुधा तीव्रा च जयते लोभश्चार्थकृतो तृणां येन मुह्यन्त्यपण्डिताः यस्तद्वेदो भयं प्राज्ञ पाप्मना न सोपधे निकृधिष्ठेयं परिवादोऽभ्यसूयथा परोपकादो हिंसा च पैशून्यानृतं तथा एतान् यस्तु तपस्तस्य प्रहीयते यस्त्वेतानाचरे द्विद्वान् वर्धते इह चिंता बहुविधा धर्म धर्मस्य से कर्म भूमि लोके कृत्वा शुभा शुभं शुभाशुभं शुभ शुभम तथा शुभमधान्य प्रजापति पूर्वं देवा पूर्व देवासर्षिगण तथा इे तपःसः पूता ब्रह्म लोकमुपाश्रिताः उत्तरपृथिवीभागसर्वपुण्यतमः शुभः इर्गस्थास्तत्र जायन्ते ये वैपुण्यकृतो जनाः यदि सत्कारमिच्छन्ति तिर्यज्ञोनिषिचापरे तिर्यज्ञोनिषु चापरे क्षीणायुषस्तथा च अन्ये नश्यन्ति पृथिवीतले अन्योन्यभक्षणासक्ता लोभमोहसमन्विताः इहैव परिवर्तन्ते न च यान्त्युत्तरां दिशं गुरूनुपासते येदु नियदा ब्रह्मचारिणः पन्थानां सर्वलोकानां विजानन्ति मनीषिणः युत्युक्तोऽयं मया धर्मः संक्षिप्तो ब्रह्म निर्मिदः धर्माधर्मौ हि लोकस्य यो वैवेत्ति स बुद्धिवान् भरद्वाज उवाच अध्यात्मं नाम यदिदं पुरुषस्येक चिन्त्यते यदध्यात्मं यथा चैदत्तन्मे ब्रूहि तपोधन भृगुरुवाच अध्यात्ममिति विप्रर्शे यदेतदनुपृच्छसि तद्वाख्यांस्यामि ते तद श्रेयस्करतमं सुखं सृष्टिप्रलयसंयुक्तमाचार्यैपरिदर्शितं यज्ज्ञात्वा पुरुषो पुरुषोलोके प्रीतिं सौख्यं च विन्दति फललाभश्च तस्य स्यात् सर्वभूतहितं च तद् पृथिवी वायुराकाशमापोज्योतिश्च पञ्चमं महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ यतसृष्टानि तत्रैव तानि यान्दिलयं पुनः महाभूतानि भूतेभ्यः सागरस्योर्मयो यथा प्रसाय च यथाङ्गानि कुर्म संहरदे पुनः तद्वद्भूतानि भूतात्मा सृष्टानि हरदे पुनः महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत अकरोत्तेषु वै तु जीवो न पश्यति शब्दश्रोत्रं तथा कानित्रयमाकाश यो वायोस्पर्शस्तथा चेष्टा त्वक्च्चैव हृदयं स्मृतं रूपं चक्षुस्तथा पाकस्त्रिविधं तेज उच्यते रक्साक्लदश्च जिह्वा च जलगुणास्मृताः क्रयं ख्राणं शरीरं च यदे भूमिगुणास्त्रयः महाभूतानि पञ्चैव षष्ठं च मन उच्यते इन्द्रियाणि मनश्चैव विज्ञातान्यस्य भारत सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः श्रोत्रं वै श्रवणार्थाय स्पर्शनाय च त्वक् स्मृता रसादानाय रसना गन्धानाय नासिका चक्षुरालोकनायैव संशयं गुरुते मनः बुद्धिरध्यवसानाय क्षेत्रज्ञः साक्षिव स्थितः ऊर्ध्वं पादतलाभ्यां यद्वाक्चोदक् च पश्यति एतेन सर्वमेवेदं विभुनाच्याप्तमन्तरं पुरुषैरिन्द्रियाणीहवेदितव्यानि कृष्णशः तमोरजश्च सत्त्वं जतेऽपि धावास्तदाश्रदाः येदां एतां बुद्धिं नरो बुद्ध्वा भूताना गतिं गतिं समवेक्ष्य शनैश्चैवं लभते शममुत्तमं गुणैर्विनश्यदे बुद्धिर्बुद्धेरेवेन्द्रियाण्यपि मनषष्ठानि भूतानि बुद्ध्यभावे कृतो गुणाः यदि तन्मयमेव वै तत्सर्वं स्थावरजङ्गमं प्रलीयते चोद्भवति तस्मान्निर्दिश्यते तथा यन् पश्यति तञ्चक्षुः शृणोति श्रोत्रमुच्यते जिघ्रधिघ्राणमित्याहुः रसं जानादिजिह्वया त्वचा स्पर्श यदि स्पर्शं बुद्धिर्विक्रियते सकृत येन प्रार्थयदे किञ्चित्तदा भवति तन्मनः अधिष्ठाना न तु अधिष्ठाना तु बुद्धिर्हि पृथगर्थानि पञ्चथा इन्द्रियाणि दि तान्याहुस्तान्यदृश्योतिष्ठति पुरुषे तिष्ठति बुद्धिस्त्रिषु भावेषु वर्तते कदाचिल्लभते प्रीतिं कदाचिदुपशोचति न सुखेन कदाचिदपि वर्तते एवं नराणां मनसि त्रिषु वर्तते सेयं भवात्मिका भावां स्त्रीनेदानदि वर्तते सरितां सागरो भर्ता वेलानामिव वारिधिः अदि भावगदा बुद्धिर्भावैर्मनसि वर्तते वर्तमानो मुनिस्त्वेवं स्वभावमनुवर्तते इन्द्रियाणि हि सर्वाणि प्रवर्तयति सा सदा प्रीतिसत्त्वं रजशोकस्तमक्रोधस्तु ते त्रयः ये ये च भावलोकेस्मिन् सर्वेप्येदेषु वैतृषु इति बुद्धिगताः सर्वव्याख्यातास्तव भावनाः इन्द्रियाणि च सर्वाणि विचेतव्यानि धीमता सत्त्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा त्रिविश्वा वेदनाश्चैव सर्वसत्त्वेषु दृश्यते सात्विकी राजसी चैव तामसी चेदिमानद सुखस्पर्शसत्त्वगुणो दुःखस्पर्शो रजो गुणः तमो गुणेन संयुक्तौ भवदो व्यावहािकौ तव यत्प्रीति संयुक्तं काये मनसि वा भवेद् वर्तते सात्त्विको भाव इत्याचक्षिध तत्तथा अध यद्दुःखसंयुक्तमप्रीतिकरमात्मनः प्रवृत्तं रजयित्येव जानीहि मुनिसत्तम अध येमोह संयुक्तमव्यक्तविषमं भवेद अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेद प्रहर्षप्रेतिरानन्दसुखं वा शान्तचित्तता कथं चिदभिवर्तन्त इत्येते सात्विका गुणाः अदुष्टिपरितापश्च शोको लोभस्तदा लिङ्गानि रजसस्तानि दृश्यन्ते देहहेतुभिः अपमानस्तदा मोहप्रमादस्वप्नतन्द्रिदे कथञ्चिदभिवर्धन्ते विविधास्तामसा गुणाः दूषणं बहुधा गामिप्रार्थना संशयात्मकम् मनस्वनियदं यस्य स सुखी प्रत्यचेख च सत्त्वक्षेत्रज्ञयोरे तदनन्तर्यं सत्त्वक्षेत्रज्ञयोरे तदन्तरं यस्य सूक्ष्मयोः सृजते हि गुणानेक एको न सृजते गुणान् मशको ौ यथा सदा अन्योन्यमेदौ स्यादाञ्च सम्प्रयोगस्तदोभयोः पृथग्भूतौ प्रकृत्यादौ सम्प्रयुक्तौ च सर्वदा यथा मत्स्योज्जलं चैव सम्प्रयुक्तौ तथैव तौ न गुणाविदुरात्मानं स गुणान्वेत्ति सर्वशः परिद्रष्टा गुणानां तु संस्रष्टा मन्यते तथा इन्द्रियस्तु प्रदीपार्थं कुरुदे बुद्धिसतमैः निर्विच्येष्ठैरजानद्भिः परमात्मा प्रदीपवान् सृज देहि गुणं सत्त्वं क्षेत्रज्ञ परिपश्यति सम्प्रयोगस्तयोरेष सत्त्वक्षेत्रज्ञयोर्ध्रुवम् आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश्चन सत्त्वं मनः संसृजते न गुणान्वै कदाचन रश्मींस्तेषां स मनसा यदा सम्यग् नियच्छति तदा प्रकाशते स्यात्मा फडे दीपो ज्वलन्निव त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः सर्वभूतात्मभूस्तस्मात् स गच्छेदुत्तमां गतिं यथा गदिम् चरःपक्षी सलिलेन सलिलेनन लिप्यते एवमेव कृतप्रज्ञोभूतेषु परिवर्तते एवं स्वभावमेवैतत्स्वबुद्ध्या विहरेन्नरः अशोचन्नप्रकृष्यंश्च समो विगतमत्सरः भावयुक्त्या प्रयुक्तस्तु सनित्यं सृजते गुणान् ऊर्णनाभिर्यथासूत्रं विज्ञेयास्तं धुवद्गुणाः प्रध्वस्ताननिवर्दन्ते लभ्यते। प्रत्यक्षेन परोक्षं तदनुमानेन सिध्यति एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे उभयं सम्प्रधार्यैतद्व्यवस्येत यथा मदि इदीमं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढं विमुच्य सुखमसीद शो न शोचेच्छिन्नशंशवः मलिना प्राणुयुः शुद्धिं यथा नदीं नराः अवगाह्य सुविद्वांसो विधिज्ञानभिधे तथा महानद्याहि पारज्ञस्तप्यते न तरण्यथा न दु प्यदि तत्त्वज्ञकुलज्ञस्तु तरत्युद एवं ये, ये विदुरध्यात्मं कैवल्यं ज्ञानमुत्तमं एवं बुद्धा नरा नरः सर्वो भूतानामगतिं गतिम् अवेक्ष्य दश नैर्बुद्ध्या लभते च शमं ततः त्रिवर्गो यस्य विदितः प्रेक्ष्य यश्च विमुञ्चति अन्विष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः न चात्मा शक्यते द्रष्टुमिन्द्रियेषु विभागशः तत्र तत्र विसृष्टेषु दुर्वाप्येषकृतात्मभिः दुर्वाप्येष्वकृतात्मभिः ये दद्बुद्धा भवेद् बुद्धः किमन्यद् बुद्धलक्षणं विज्ञायत्तमन्यन्ते कथकृत्या मनीषिणः न भवद्विदुषां तदोभयं यद्विदुषां सुमहद्भयं भवेद् न हि गतिरथिकास्ति कस्यचित्सदिहि गुणे प्रवदत्यतुल्यतां यकरोत्यनभि सन्धिपूर्वकं तच्च निर्दहदि यत्पुरा कृतं न प्रियं तदुभयं कृतप्रियं तस्य तज्जनयतीह ता कुर्वतः लोकमायुरभिसूयते जनस्तस्य तज्जनयतीह कुर्वन्तः तत्र पश्य जायते यदि पदम् सदा भरद्वाच उवाच ध्यानयोगं समाचक्ष्व मह्यं तत्पदसिद्धये यज्ज्ञात्वामुच्यते ब्रह्म नरस्त्रिविधतापदः भृगुरुवाच हन्ततेः सम्प्रवक्ष्यामि ज्ञानयोगं चतुर्विधं यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्तीह महर्षयः यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः महर्षयो ज्ञानतृप्तात् नावर्तन्ते पुनश्चापि मुक्ता संसारदोषतः जन्मदोषपारिक्षीणाः स्वभावे पर्यवस्थिताः निर्द्वन्द्वा नित्यसत्त्वस्था विमुक्ता निष्परिग्रहाः असङ्गान्यविधादीनि मनश्शान्तिकराणि च तत्र ध्यानेन संक्लिष्टमेकाग्रं धारयेन्मनः पिण्डीकृत्येन्द्रि अग्राममासीन काष्ठवन्मुनिः शब्दं न विन्देत् श्रोत्रेण त्वचा न वेदयेत् रूपं <क्रेयन्या> न चक्षुषा विन्द्या जिह्वह्या नरसांस्तथा क्रैयाण्यपि च सर्वाणि जह्या ध्यानेन तत्त्वविद पञ्चवर्गप्रमादीनि नेच्छेञ्चैदानि वीर्यवान् ततो मनसि सङ्गृह्य पञ्चवर्गं विचक्षणः समादध्यान्मनोभ्रान्तमिन्द्रियैः सह पञ्चभिः विसञ्चारिनिरालम्बं पञ्चद्वारं बलाबलं पूर्वध्यानपदे धीर समादध्यान्मनस्त्वरा इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययं एष ध्यानपदः पूर्वो मया समनुवर्णितः तस्य तत्पूर्वसमृद्ध आत्मषष्ठमनन्तरं स्फुरिष्यदि समुद्रान्ता विद्युदम्बुधरे यथा जलबिन्दुर्यथा लोलपर्णस्तस्सर्वतश्चलः एवमेवास्य चित्तं च भवति ध्यानवर्त्मनि समाहितं क्षणं किञ्चिद्ध्यानवर्त्मनि तिष्ठति पुनर्वायुपदं भ्रान्तं मनो भवति वायुवद अनिर्वेदो गदक्लेशो गदतन्द्रो ह्यमत्सरी समादध्य पुनश्चेदो ध्यानेन ध्यानयो गवितर्विचारश्च वितर्कश्च विवेकश्चोपजायते मुनेः समाधियुक्तस्य प्रथमं ध्यानमादिदः मनस्साष्यमानस्तु समाधानं च कारयेद् ननिर्वेदं निर्वेदं मुनिर्गच्छेत् कुर्यादेवात्मनो हितं पां शुभस्मकरीषाणां यथा वैराश्यश्चिदाः सखसा वारिणासिक्दा न यान्ति परिभावनाः किञ्चित् स्निग्धं यथा च साक्षुष्कं चूर्णमभावितं क्रमेण दुशनैर्गच्छेत् सर्वं तत्परिभावनं एवमेवेन्द्रियग्रामं शनैः शं संहरेत् क्रमशश्चैव सम्यक् प्रशमिष्यति स्वयमेव मनश्चैवं पञ्चवर्गं मुनीश्वर पूर्वं ध्यानपद्धे स्थाप्य नित्ययोगेन शाम्यति न तत्पुरुषकार्येण न सुखमेष्यति तत्तस्य यदेवं संयदात्मनः सुखेन संयुक्तो रंस्यदे गच्छन्ति योगिनो ह्येवं निर्वाणं निरामयं सनन्दन उवाच युत्युक्तो भृगुणा ब्रह्मन् भरद्वाजप्रदाभवान् भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयद येष ते प्रसवो विद्वन्जगतः सम्प्रकीर्तितः निखिलेन महाप्राज्ञ किं भूय श्रोतुमिच्छसि इति श्रीबृहन्नारदीयपुराणे द्वितीयपादे चतुश्चत्वारिंशत्तमोऽध्यायः ओम्